पञ्चाशीतितमः सर्गः एवमुक्तस्तु भरतो निषादाधिपतिम् गुहम् प्रत्युवाच महाप्राज्ञो वाक्यम् हेत्वर्थसंहितम् ऊर्जितः खलु का ते कामः सखे यो मे त्वमीदृशीम् इत्युक्त्वा समः तेजगुहम् वचनमुत्तमम् अब्रवीद्भरतः श्रीमान् पन्थानम् दर्शयन् पुनः कतरेण गमिष्यामि भरद्वाजाश्रमम् यथा गहनोयं भृशम् देशो गङ्गानूपो दुरत्ययः तस्य तद्वचनम् श्रुत्वा राजपुत्रस्य धीमतः अब्रवीत्प्राञ्जलिर्भूत्वा गुहो गहनगोचरः दाशास्त्वनुगमिष्यन्ति देशज्ञाः सुसमाहिताः राजपुत्र महाबला। दुष्टो अहम चागम राजमबिन् व्रजसी राण इे महति से जनयती मे तमेम तमा काश निर्मल भरतश्लक्ष्मयाचा गुहम वचनमब्रवी स न मकूर् राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मदः तन्निवर्तयितुम् यामि काकुत्स्थम् वनवासिनम् बुद्धिरन्यानमे कार्या गुहसत्यम् ब्रवीमि ते स तु संहृष्टवदनः श्रुत्वा प्रतिहर्षितः धन्यस्त्वम् न पश्यामि जगतीतले अयत्नादागतम् राज्यम् यस्त्वम् त्यक्तुमिहेच्छसि शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति यस्त्वम् कृच्छ्रगतम् रामम् प्रत्यानयितुमिच्छसि एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत शत्रुघ्नेन समम् श्रीमान् चयनम् पुनरागमत् रामचिन्तामयः शोको भरतस्य महात्मनः उपस्थितो ह्य नर्हस्य धर्म प्रेक्षस्य तादृशः अन्तर्दाहेन दहनः सन्तापयति राघवम् वनदाहाग्निसन्तप्तम् गूढोऽग्निरिवपादपम् प्रसृतः सर्वगात्रेभ्यः स्वेदम् शोकाग्निसम्भवम् यथा सूर्यांशु सन्तप्तो हिमवान् प्रसृतो हिमम् ध्याननिर्दरशैलेन विलिश्वसितधातुना दैन्यपादपसङ्गेन शोकायासाधिशृङ्गिणा प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना आक्रान्तो दुःखशैलेन महता कैकयीसुतः विनिश्वसन् वै भृष दुर्मणास्ततः प्रमूढ सञ्ज्ञः परमापदम् गतः शमम् नले बे हृदय ज्वरार्जितो नर ऋषभो यूथ गुहेन सार्धम् भरतः समागतो महानुभावः स जनः तदा पुनर्गुहः समाश्वासयदग्रजम् प्रति श्रीमद्रमाणे वाल्मीक आदि काव्य अयोध्या कांडे पंचाशीतित सर्ग